न्दतौ तस्य हनचिकेता नाम पुत्राम्हगुमारगुसन्तम् दक्षिणादिनीयमानादिश्रद्धादिवेश सहो वाचा तथ कस्मैमान्दापनीतौ वाचा ददामेति रम् हस्मोत्थितम् वागभिवदति गौतमकुमारमिने स होभाज परे मृत्यो गृहान् मृत्यवेवयित्वा धामिने काम्रे प्रवसन्दम् गन्ताजेजहो तस्य स्म निस्तो गृहेऽवधानेत्वा पृच्छेन् कुमारकचरार्थेरवाच्छेरिने विश्वेरि प्रतिब्रूदान् किम्बसमागौराज्यमाश्नायिने ीजामिदे अशोकस्तैरे किन् साधुकृत्या प्रवसन्तम् जगाम तस्य विस्तो स्वान् गृहौमारः तमागर्त्यवप्रच्छ कुमारगतिरात्रे न वायैप्रत्यवाच किम्प्रथमागौरात्रिमाश्नायिने ऋदान्तयिरे किन्द्विलीरामिरे अशोगस्तयि किम् कृतीयामिति साधुकृत्यादि नमस्तेऽस्तु भगवदीहोवाच परम् वृणेष्वेति विफलमेव जीवण्डयानेति वृणेष्वेति इष्टावोत्तयोम् रोहेति होवाच तस्मै हैतमज्ञम्नायगेनवाच ततो वेतस्येष्टापोत्तैनाक्षीयेत् ेतञ्चिनुते युजेन एवम् वेद श्रीयम्नाचिकेतमुद ततोपनृत्यृत्युञ्जयति योज्ञन्नाचिकेतन्त्यनुते यभुजैनमेवम् वेद हिरण्यमुदास्य तृतीयम् प्रास्यदस्मै नैवाच्छदेन तदात्मन्यष्मानरे प्रास्य तस्माधरण्यकनिष्ठब्धनाम् भुञ्जत्प्रयतमम् सवेदमेवाविन्दत् यस्मैताम् दक्षिणामने एष्य आकस्मायैव हस्ताय दक्षिणायाम् प्रत्यगृह्णाय रक्षायत्वा लक्षिणाम् प्रतिगृह्णामेति सो लक्षदलक्षिणाम् प्रतिगृह्य लक्षते हवे लक्षिणाम् प्रतिगृह्य हेहम् मेना एतद्धत्वमेतद्विद्वागम् स वाजस्रवथा गोतमाः अप्यलो ते स्यान् दक्षिणाम् प्रतिगृह्णन्ति उभगेन भगम् दक्ष्यामः एव दक्षिणाम् प्रतिगृह्येति ते रक्षन्तदक्षिणाम् प्रतिगत्य रक्षणे हविदक्षिणाम् प्रतिगत्य एवम् वेद कान्यम् उत्तरवेदिसंविदेषोन्दः अनन्दतः कुर्यात् एतमग्निकामेण व्यर्थयेत् श्रमेण व्यर्थः आमेण व्यर्थयेत् सौम्ये वामेण मद्भरे चिह्नित आभूयिष्ठ आहुदयो हूमेरन्ने एतमग्न्यम् अथैणम् पुरषयः उत्तरवेद्यामेव क्षत्रियमचिन्वद ततोऽवैदेन्दन्त प्रजाम् अभिस्वर्गम् लोकमजयन् इन्दन एव प्रजाम् अभिस्वर्गम् लोकम् जयति यो हाज्ञादिकेदम् चेदैनमेवम् वेद अथम् वागदर्थ्यकामः यथान्यवापदशे ततोऽवैतगेतामध्यमार्था च यामिदम् वागलद्धः एतावृद्धिमर्थोति या यामिदम् वागलद्धः योम्नादिकेदम् च नृतेनमेवम् वेद अथ गो बलोबाष्णः पशुकामः आङ्गमेव यज्ञे पञ्चपुरस्कारान् पञ्चदक्षिणदः पञ्चपश्चात् पञ्चोत्तरदः एकाम् मध्ये ततोऽवैतसहस्रम् पशोऽन्प्राप्नोत् सहस्रम् पशूना आप्नोति योग्यन्नाचिकेदञ्चिते योजैनमेवम् वेद अधैनम् प्रजापनिर्ज्येष्ठकामोस्कामप्रजननकामः सप्त पुरस्कारान् ईस्वक्षिणः सप्तपश्चात् तिस्रमुत्तरः एकाम् मध्ये ततो वेदप्रयोज्येष्ठमाप्नोन् एताम् प्रजातिम् प्राजायत यामिदम् प्रजा प्रजायन्ते तमुर्ध्वे ज्येष्ठम् माता पिता पुत्रः प्रवत्प्रजानम् उपस्थो योजन्मध्यमा प्रयतो ज्येष्ठमाप्नोति एताम् प्रजाम् प्रजायणे यामिदम् प्रजा प्रजायन्ते योग्यन्द्रादिकेतञ्चन ते योजैनमेवम् वेद अथैनमिन्द्रो ज्येष्ठकामः ओर्ध्वा अतो वेश ज्येष्ठमगच्छत् ज्येष्ठम् गच्छति यो ज्यन्नादिकेदम् च मदे योजैनमेवम् वेद अथेन महावादित्यस्वर्गकामः अथ वेनापि स्वर्गम् लोकमजयत् अभिस्वर्गम् लोकम् जयति यो ह्यन्नादिकेदम् च मते योजैनमेवम् वेदयते चेत् तेजस्वी यशस्वी ब्रह्मवर्तसे स्यामिदे भानाहो दुर्धिष्ट्यादुत्सर्गे हेजम् प्रागाद्य साहा तेजसा यशसा ब्रह्मवर्तजे ब्रह्मवर्तजे भवन् भूयिष्ठा दक्षिणानये दक्षिणादिलीयमानासुप्राच्यै प्राच्यैदिप्राचेयुधानागे त्वाद्यस्य स्वाहेति श्रूपेणोपहत्याः वनीये जुभूयाज भोयिष्ठमया स्मै भोयिष्ठा दक्षिणानयन्ते पुरेशमुपधाय चिरिकृतृस्य अग्निम् प्रणेयापथमासाय तेरुद्रैरुधेयस्य रूपम् अज्ञाविष्णो निर्धारायाः अन्नपद इत्यन्नहोमः सप्तजयाज्ञे तमिलः सप्तविष्पागिविश्वः सब याम् प्रथमाविष्टकानि इमन्तया लोकमभिजगे अथो या अस्मि लोके देवताः तासाम् जयन्दे यान् विवेयाम् वदानि अन्तरिक्षलोकन्तयाभिषगे अथोयान्तरिक्षलोके देवदाः जायुजगो आप्नोदि अमुन्तया लोकमभिरिगि अथोया लक्ष्मलोके देवताः जायुजगन्तप्नोदि अथोजामोरवामी मुरवस्थरीयागुण्डस्य लोकाः देवताभिरभिरिगि कामचारो भवस्तु लोगेषु भवने योदितम् योगेन नैवम् वेद संवत्सरो वा अज्ञम्नादिकेतः तस्य सन्दर्शिनः हे यस्मादक्षिणः पक्षः वरुषः उत्तरः शरत्पुच्छम् मादाः कर्मकाराः अहरात्रेषु निर्धेयम् पर्जुन्यावतोर्धाराः यथा वै वर्जन्यः सुपृष्टम् मृष्ट्वा त्रिजाज्ञः सर्वान् कामान् सम्पूरयति एवमेव सर्वान् कामान् सम्पूरयति योज्ञन्नाचिकेतम् चिनुते यौजेन यो एवम् वेद संवत्सरो वाज्ञन्नाचिकेतः तस्य वृन्दशिरः भेष्मो दक्षिणः पक्षः महिरा पुच्छम् शरदुत्तरः पक्षः हेमन्तोऽध्यम् ओप्रपक्षाश्चनयः अपरपक्षात् पुरेदम् अहोरात्राणिष्टका एदवापसो अग्निरग्निमयः पुनम् नवः अग्निमयो हरे पुनम् नवो भूत्वा स्वर्गम् नवगवेदि आदित्यस्य आज्यम् योऽज्ञम्नादि वेदम् च ले आशानाम् त्वाविश्वाशाः अण्णो ज्ञानमधरन्विदनुभजयत्वम् कामाभूतस्य कामस्तदग्रे ब्रह्म यज्ञानम् पिता विराजाः यज्ञो रायो यज्ञः आपो भद्रादिपश्यामि सुभ्रम्भरम् जयो ओर्वम् देव अभरेण प्राणापाणौ अभ्यः स्पृष्टम् देवेभ्योमे स्वर्गो लोकस्थोभवय ब्रुवन् प्रजापदे स्वर्गोवैनो लोकस्त्याभूदृच्छन्वैरेच्छद अमृत्तिभिरन्वविन्द प्रयक्ते त्वाम् एत्रयो हरिणाम तायुक्त एक्षणे मरोक्षेण मरोक्षप्रियादेवाः रमासाः प्रवेद प्रजापद आशयावेश्यते अहमगाः स्मे आन्स्मात् अथ एव सत्या भविष्यते अनुस्वर्गम् नागम् वेत्सजे स एतमज्ञामाय परोनाशमष्टागवानञ्जनवने आशायैधरम् अनुभर्त्यैधरम् अनुमेतस्य सत्या भवन् अनुस्वर्गम् नाकमव्यञ्जन सत्याह वा अस्याजा भवने अनुस्वर्गम् नागम्यञ्जने ेन श्रोत्रजहोदि अग्नय कामाय स्वाहायै स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहायलोकाय स्वाहाग्नयेन सुकृते स्वाहेन कामो द्वयेन प्रजापते कामेन वैश्राम्यसि अहम् वै कामोऽस्मि मान्द्रत्यःकामो भविष्यति अनुस्वर्गम् नागम्येत्स्ये स एवमये कामाय परोडाजमष्टायपालव कामायतरम् अनुमत्पेतरम् ततोऽपितस्य सत्यःकामो भवति अनुस्वर्गम् आगमविन्दते सत्यो हवास्य कामो भवति अनुस्वर्गम् आगम्यन्दतेन देवम् वेद श्रोत्र अग्नय कामाय स्वाहा कामाय स्वाहा अनुमोद्ये स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाकृते स्वाहे अहम् ब्रह्मास्मे माम् न यजस्वा अथजय ब्रह्मण् वा भविष्यति अनुस्वर्गम् लोकम् वेत्स्ये स एतमग्नये कामायपरो अडागमष्टागपालन्दिनभवद् ब्रह्मणेतरम् अनग्ने जलम् ततो वेदस्य ब्रह्मण्वायज्ञा भवन् अनुस्वर्गम् लोकमविन्दने ब्रह्मन्वानहवास्त्रयज्ञा भवते अनुस्वर्गम् लोकम् विन्दने यगेतेन हविदायजने भूजेन देवम् वेद सहोत्रे अग्नये कामाय स्वाहा ब्रह्मणे स्वाहा अनुमत्ते स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नय स्पष्टकृते स्वाहेन यज्ञोः भजेन प्रजापदे यज्ञेन वैष्याम्यहे मामवै यज्ञोस्मे मान्महेन स्वा असदे सत्यो यज्ञो भविष्यति अस्वर्गम् लोकम् वेत्सले स्वगेदमग्नय कामाय पुरोडाजमट्टागपानन्दरमज यज्ञाय धरम् अनुमत्ते चलम् अनुभवेतस्य सत्यो यज्ञो भवति अनुस्वर्गम् लोकमविन्दरे सत्यो हवासयज्ञो भवति अनुस्वर्गम् लोकम् विन्दने एतेन हविषायने भूतेन देवम् वेद श्रोत्रज अज्ञयकामा युष्माः यज्ञायुष्पाः अनुमत्ये स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकायुष्माः अग्न्य स्पृष्टकृते अवापो ब्रुवन् प्रजापदेशे सर्वे कामाश्रदाः अयवा आपस्मः अस्मान्वेदस्मा असत्त्वै सर्वे कामाश्रयिष्यन्ते अनुस्वर्गम् लोकम् वेत्सदे स एतमज्ञामायणादमष्टागपालम् निरवपदे अद्य स्थलम् अनुमर्गे धरम् सर्वे कामाश्रयन्द अनुस्वर्गम् लोकमिन्द्रे सर्वे हवास्मिन्कामाश्रयन्ते अनुस्वर्गम् लोकम् विन्दनि येन हविषागदे यौतेन दे देवम् वेद सोत्रे अग्रय कामाय स्वाहाभ्यस्वाहा अनुवत्ये स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्रयेगते स्वाहेपलिमानम् भवेत् प्रजापते अज्ञगे वैपनिपदे सर्वाणि भूतानि बलिगंहरन्ते अहम् वा अज्ञल्परिमानस्मि मा अथ ते सर्वाणि भूतानि बलिगंहरिष्यन्ते अनुस्वर्गम् लोकम् एस् दी स एतमज्ञगे कामायमष्टागपालञ्जलमपदे अज्ञगे जलम् अनुमत्ते जलम् करोमि अस्मै सर्वाणि भूतानि बलिवहरन् अनुस्वर्गम् लोकमविन्दन् सर्वाणि वा अस्मै भूतानि बलिव्यवहरन्ति अनुस्वर्गम् लोकम् विन्दने ते दे विनायुजेन देवम् वेद स्तोत्र विभोगे अग्निगे कामाय स्वाहाग्निगे बलिपजये स्वाहा अनुमत्ते स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नस्वाहे तमनुवित्तिरब्रवेस्वर्गम् मे लोकमनुवित्सहि अहम् मानुवित्तिरस्मि महान् न यस्वा अथे सत्यानुवित्तिर्भविष्यति अनुस्वर्गम् लोकम् वेत्से स एतमग्नये कामाय पुरोडासमष्टागमालञ्जलभवज अनुमित्ते चलम् अनुमत्तेतस्य सत्यानुवित्तिरभवजे अनुस्वर्गल्लोकमविन्दरे सत्याहवा अस्यानुवित्युद्भवते अनुस्वर्गल्लोकम् विन्दरे वेद होत्रजहोदे अग्नये कामा यस्माहानुवित्ते स्वाहा अनुवृत्ते स्वाहा प्रजापदे यस्माः स्वर्गायलोकायस्माः अग्नये स्वाहेन कामानेताः सप्त स्वर्गस्य लोकस्य द्वारः निवश्यो नियो नाम आशाः प्रथमागो रक्षति कामो द्वितीया ब्रह्म तृतीया यज्ञश्चतुर्थी आपः पञ्चमे अगल्पविमान् षष्ठी अनुविक्त्यसप्तमे अनुभवे स्वर्गम् लोकम् विन्दति कामुस्य स्वर्गे लोके भवति स्वन्पुष्टे अष्टो हि वरा त्रिपुंसज्ञा स्त्रीया सारकम् समृद्धे तपसा देवा देवतामग्रायन् तपसण्डविन्दन् तपदा सुभत्रा मणदामारादेः येनेदम् विश्वम् परिभोजन्यदस्ते प्रथमजम् देवयो हविषा विधेम सयम्भ ब्रह्मपरमन्नकोय स एव पुत्रस्य श्रद्धया जोदे वक्तमशुले दे श्रद्धात्मनिष्ठालोकस्य दे। देवी सानो निषाणोपैज्ञमागाजे दे। कामवत्सामृतम् दुहाना श्रद्धा दे देवीत्मसमुदस्य विश्वस्य भक्ते जगदत्प्रतिष्ठा आदिश्रद्धागो हविषा यामहे सानो लोकमतरम् दृषादो ईशाना देवी भुवनस्याधिपत्नी आगात्सत्यगो आग हविरजाणम् यस्माद्देवायज्ञभुवनम् च विश्वे तस्मै विधेमह विशादेवैस्वसमाजम् वदेम यस्य प्रतिष्ठोर्वम् यस्माद्देवायज्ञरेभुवनम् च सर्वे तत् सत्यमर्थतु ब्रह्माहुलैर्वमोदमानम् मनसोपशे सर्वविलम्बभूव नान्यस्य मनोपशमन्व्यायष्मो हि देवः सह तत्सहीयान् आगोरे रामधिपनि सङ्कल्पजोतिम् देवम् विपश्चिम् मनोराजानमिह वर्धयन्तः महवेरस्य सुमतो पवित्रम् विनसम् पुराणम् येन भूतस्तरस्कृतानि तेन पवित्रेण शुद्धेन भूताः आत्मानमलादिपवित्रम्भ्याजमानम् महस्मद् अमृतस्य धारा बहुधादो हमानम् लोके नो लोके स्थितान्तर्मर्धाभुवः अनुणोज्ञाने त्वम् हव्यवाद्य स्पृष्टम् देवेभ्यो वे स्वर्गो लोकस्थिरो भवत् हे प्रजापदिमब्रुवन् प्रजापदे स्वर्गो वैणो लोकस्थिरोभूदेच्छेदे तैयज्ञैयज्ञकृते अहमुदैतपोस्मि मान्वैजस्मात्यन्तपो भविष्यति अनस्वर्गम् लोकम् वेत्सति इति ष्टागवानन्दवदे तमजेतरम् अनुमत्येतरम् अनुस्वर्गम् लोगमनुस्वर्गम् लोगम् इन्द्रे श्रोत्रजो अग्नये स्वाहा स्वाहा अनुमत्यये स्वाहा प्रजापृदये स्वाहा स्वर्गाय लोकाय स्वाहाग् स्वाहेन तग् श्रद्धाभ्रवेर प्रजापदे श्रद्धया वै श्राव्यसे अहमवे श्रद्धास्मि मास्मा अथ ए सत्या श्रद्धा भविष्यति अनुस्वर्गम् लोकम् वेत्सेन तयेत वायमष्टागमानञ्जनमये श्रद्धायै धरम् अनुमत्येधरम् कलपि तस्य सत्याः श्रद्धा भवने अनुस्वर्गम् लोकमविन्दले सत्यावास्य श्रद्धा भवति अनुस्वर्गम् लोकम् विन्दलेनाविधायनेन वेद स्वान्दुर्यभवदे अग्नये स्वाहा श्रद्धायै स्वाहा हनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये कृते स्वाहेति त्यमस्मि मा न सत्यगम् सत्यम् भविष्यति अनुस्वर्गम् लागम् वेत्सदेकवदे सत्याय धरम् अनमध्ये धरम् ततो वेतस्य सत्ययम् सत्यम् भवते अनुस्वर्गम् लोगमविन्दते सत्यगम् भवास्य सत्यम् भवते अनुस्वर्गम् लागम् विन्दते एवं वेन सहोत्रविभोगे अग्नये स्वाहा सत्याय स्वाहा अनुमति स्वाहा प्रजापतजय स्वाहा स्वर्गाय लवकाय स्वाहाग्नये स्वकृतये स्वाहे ब्रह्मणोः ब्रमेते प्रजापते मनसा वैश्या अग्निषे अहवीमनोस्मि स्मात् सत्यम् मनोभविष्यति अनुस्वर्गम् लोकम् वेत्सदेकेतनम् अनपत्येतरम् ततो वेतस्य सत्यम् मनोभवते अनुस्वर्गम् लोकमविन्द्रे सत्यम् भवास् मनो भवति अनुस्वर्गम् लोकम् विन्दलेण हे यौतेन देवम् वेद स्वाहा स्वाहा स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाकृते स्वाहेते प्रजापते चरणे अवैष्ठा अहमुरणमस्मि मान्वयस्वय सत्यम् चरणम् भविष्यति अनुस्वर्गम् लोकम् भेत्सते ष्टागपालन्दिन भवते चरणाय जलम् हनुमत्यै जलम् ततो वेदस्य अनुस्वर्गम् लोकमविन्दरे अनुस्वर्गम् लोकम् विन्दरे स्वाहा शरणाय स्वाहा हनुमत्यै स्वाहा स्वर्गाजलोकाविश्वाहाग्नये स्वाहेदे तावाहेता पञ्चस्वर्गस्य लोकस्य द्वारः अपाधा अनुवित्रयो नाम तमः प्रथमा गो रक्षति श्रद्धाद्वीयाः प्रत्यन्तदीयाः मनश्चर्थ्ये शरणम् पञ्चमे अलहवे स्वर्गम् लोकम् एवम् वेदन्विष्टेयै चेम् भवेशतुर्होदारः विज्ञायम् विदः एनकम् शब्दम् नाभिजनागच्छति तदेम् वेदोदनातम् वेद ततो दृत्तम् सर्वाः स्वै कल्पन्ते वायस्तविरहोदाशहोदरीणाम् पृथिवीर्होदाचतुर्होदीणाम् अज्ञहोदापञ्चहोदृणाम् वाग्भोदाशब्होदृणाम् महाहविरहोदालत्नहोदरीणाम् एतद्वे चतुर्होदृताम् अथवा पञ्चहोदृताम् सर्वाः अस्मै च क्रपन्ते यग एवम् वेद येषामी सर्वविद्या एतद्भेटजम् एषा स्वर्गस्य लोकस्या स्मृतिः अनपभ्रमसर्भमायुवेदेम् ब्रह्मवत्यन्तकारा एते अधिवादमपादेन अथवा विश्वम् पाप्मानौ एतानि अधिवादम् जयदे अथवा विश्वम् पाप्मानम् एतेन व्यञ्जन्वेदस्वर्गकामः एने रायुष्कामः प्रजापशुकामो वा सप्तादिनञ्चम् पञ्चहोदारम् उत्तरदत्राम् अपरिष्टात्राङ्क्यकम् सप्तहोदारम्पत्यश्च यथावकाशङ्ग्रहान् यथावकाशम् प्रतिग्रहान् लोकम् वृणाश्च सर्वाः स्यिता देवताः प्रेता अभीष्टा भवन्ति रथसंश्च द्रव्यः अज्रेणैवः आत्मानन्धातुर्व्यग्निस्पृणुते अक्षः संविदश्चे द्रव्यः एताभानवे रथः यावत् अक्षः रसंविदमेव जुनुते इवमेव नाजयति अथो अग्निष्टोमेण ना अन्तरेक्षमुक्षेन स्वरात्रेण सर्वान् लोकान् हीनेन अथो दत्तेन एकविंशतिदक्षिणा ददाति एकविंशो वायुधः स्वर्गो लोकः प्रस्वर्गम् लोकमा आप्नोति असामालित्य एकविंशः अलित्यमा आप्नोति स्तरम् ददाति स्थिरायुषेन्द्रियः आयुष्येवेन्द्रिये सहस्रम् ददाति सहस्रसंविधस्वर्गो स्वर्गस्य लोकस्याभिरुक्ते अन्विष्टकम् दक्षिणा ददाति स्वर्गानि वयागुन्धे सर्वस्याद्य सर्वस्यावरुद्धे यजनविन्देत मन्थानेतावतोदनानुवाह अष्टुतेनम् कामम् यस्मै कामायाज्ञश्चीयते पृष्ठो हेन्त्वन्दतेन्दद्याय हा हि सर्वाणि वयागुन्धे सर्वस्यात्यये सर्वस्यावरुद्धे हिरण्यम् ददादे हिरण्यज्योतिरे इरन्ने स्वर्गम् नागमेदे वासो प्रचलदे त्रिसत्याभिदेवाः ससत्यमग्नि ब्राह्मणम् ब्रूयात् नेज्ञेषु यो ह वैतृहोद्रेण सुनन्दर्पेयद्रव्या प्रयाः एते वैतोदारो ने द्रव्याः हे ब्राह्मणा ो यद्दक्षिणारणये दृष्टज्ञः स्यात् अग्निमस्तु वृञ्जीरन् ते अभ्यो यथा श्रद्धम् दध्यात् सृष्टमयी तत्क्रियते नास्याज्ञको भवति यावदत्पवन्तज्ञपुरुषासंविदम् तेजोहिरण्यम् यदि हिरण्यम् न विन्देत् शर्करा उपदध्यात् तेजोश्रम् तेजसमेवाज्ञ अग्निञ्चित्तासोः प्राहण्याविषय मैत्रावरुण्या वा वीर्येण व्यर्थ्यते यावदेव वीर्यम् तस्मिन् दृशादि ब्रह्मणः सायुज्यकम् सुलोकतामाप्नोति दे। एतासामेव देवता भागम् सायुज्यम् साक्ष्याकम् समानलोकतामाप्नोति येन वण्यञ्चि न ते युजेन एवम् वेद एतदेवता वित्रे ब्राह्मणम् अथो नाजिकेते यच्चामृतम् यच्चमम् यच्च प्राणिना सर्वास्ता इष्टगा कृत्वा उपगापदगारेण ब्रह्मणादगाङ्गर्वास्त्रियः सर्वाः सः सर्वन्नस्त्री मुगन्धये सर्वास्ताः यावन्तः पाकंस बभूमेः सञ्जातादेव भाग्याः सर्वास्ताः यावन्तभूषाः पशूनाम् पृथिव्याम् पुष्करिहृताः सर्वास्ताः यावदेशिगदाः सर्वाः अप्सन्दशगाश्रवाः सर्वास्ताः यावदे शर्कराधृत्तेः अस्याम् पृथिव्यामु सर्वास्ताः यावन्तोऽश्वानोऽस्याम् पृथिव्याम् वृष्टिदापृच्छना सर्वास्ताः रामधे लोषधे सर्वाः वृष्टिदापृथवेमन सर्वास्ताः यावन्तो वनश्रयः अस्याम् पृथिव्यामदे सर्वास्ताः यावन्तो गाम्याः पशवः सर्वे आरण्याश्रये सर्वास्ताः येभ्युपादशुष्पादः अपाद सर्वास्ताः यावदाञ्जनमुच्यते देवत्रायच्छमानुषम् सर्वास्ताः यावत्कृष्णाय सन्धर्वम् देवत्रायच्छमानुषम् सर्वास्ताः यावल्लोहाय सकं धर्मम् देवत्रायच्छमानुषम् सर्वास्ताः सर्वगृंहे सकं धर्मम् प्रभो देवत्रायच्छमानुषम् सर्वास्ताः सर्वगंह्यगौरजनम् देवत्रायच्छमानुषम् सर्वास्ताः सुन्दुम् हरितम् देवत्रायुक्तमानुषम् सर्वास्ताष्टका कृत्वा उपगामतुघाधे तेन ब्रह्मणा दयादेवदयाञ्ध्रुवादेन सर्वाशो यक्षो यच्चान्तर्भूतम् प्रतिष्ठितम् सर्वास्ताष्टका कृत्वा उपगामतुघार्धे नादेन ब्रह्मणा प्रगादेवरस्मध्रुवादेन अन्तरिक्षम् च केवलम् यच्चास्मिन्नन्तराहितम् सर्वास्ताः आन्तरिक्षया प्रजाः सर्दश्च सर्वानुदारान् सलिलान् अन्तरिक्षे प्रतिष्ठिरान् सर्वास्ताः सर्वानुदारान् सलिलान् स्थावराक्रोश्यास्ताः सर्वाध्वनिकम् सर्वाध्वपुंसान् हिमो युक्तशीले सर्वास्ताः सर्वान्वरे सर्वास्ताः सर्वा विद्युदः सर्वान् हादये यक्षीय सर्वास्ताः सर्वाः श्रवन्दे सरितः सर्वमोक्षचरञ्जय सर्वास्ताः याश्च गोप्या याश्च नाद्याः समुद्र्याः याश्च वैशन्त्येर्याः सर्वास्ताः एतोत्तिष्ठन्ति जयमूताः याश्च वरिषन्ति वृष्टयः सर्वास्ताः तपस्ते च आकाशम् यच्चाकाशे प्रतिष्ठितम् सर्वास्ताः वायम् वयागुमिति सर्वाणि अन्तरिक्षेते सर्वास्ता अग्यम् सौर्यम् चन्द्रम् मित्रम् वर्णम् भगम् सर्वास्ता सत्यङ्गश्रद्धान्तगोधमम् नामलोकम् च भूताना सर्वास्ताष्टगाः कृतामदु ब्रह्मणाङ्गीना सर्वान् भगुम् सर्वान् देवान् दिविभोगम् प्रदच्छिनम् कृता सर्वाः सर्वास्ताष्टगाः कृत्वास्ताः विधामाने सर्वाङ्गिरश्चय सर्वास्ताः इतिहासपुराणम् च सर्पदेवजनाष्टय सर्वास्ताः ये च लोका ये च लोकाः अन्तर्भोधम् प्रदक्षिणम् सर्वास्ताः यच्छ ब्रह्म यच्छा ब्रह्मा अन्तर्ब्रह्मन् प्रदक्षिणम् सर्वास्ताः अहोरात्राणि सर्वाणि अर्धमासाविश्व केवलान् सर्वास्ताः सर्वान् ऋ सर्वान् मासान् संवत्सरम् च केवलम् सर्वम् भोधम् सर्वम् भव्यम् यच्छातोऽसि भविष्यति सर्वास्ता इष्टगा कृत्वा ब्रह्मणा दया देवदयाङ्गिरस्मध्रुपादेन महदेजु गुच्छते दक्षिणामाहुर्गरामकारा सर्वनामङ्गिरताम् प्रदेजे रामुदे महदेजुगुच्छते सामवेदे ऋग्यक्ह्ने ऋग्वेदे तिष्ठति मध्ये अन्धः जाता मूर्तिमाहुः सर्वादर्याहैवशस्वते सर्वन्दप्यगुम्भस्वदे सर्वगुम्भेदम् ब्रह्मणाहैव सृष्टम् ऋग्भ्यो जातम् वैश्यम्वर्णमाहुः यजुर्वेदक्षत्रियस्यार्योनिम् सामवेदो पूर्वे पूर्वे ब्राह्मणानाम् प्रसूतिः पूर्वेभ्यो मृदये आदर्शमग्निः पूर्वे विश्रुतयोगदाः दीक्ष्णा सप्तमाजायम् सत्यगम् होतैषामाधेयेज यद्विश्वतजासदा अमृतमेभ्यमुदगायत आद्रम् परिवत्सरान् भोजगमहप्रस्तोतैषामाधेदेत महृष्य प्राणो अध्वर्यलभवत् सल्पकम् विशासदा बाणाविद्वानामृतः कृप्रायच्छदद्धरे आर्तवा उपघातारः तस्याहृतमा भन् अर्धमासाश्च मासाश्च नवसाध्वर्यवो भवन् अशगम् सद्ब्रह्मणस्तेजः अच्चावाको अच्चा भवद्वेजास्तासे यद्विश्वसजासदार्गाजा नगोपस्तवत् ओजोभ्यष्टोग्रान्नः यद्विश्वसजासदा अपजितमेया मेजन मेष्ट्रेया मेजद्विजिः आग्ने द्विधिहत्याम् श्रद्धा हैवायच्छयाम् यावत्ते विश्वसिकूदिरमिणद्भविः यद्भगो हक्षच्चैभ्यमुग्ने कृष्णा चामहताब्धे वागे साकम् सुब्रह्मण्याचे येन क्षन्दो योगानुराजेन्दानि तन्वानाः सङ्गस्था च सर्वशः अहोरात्रे पदुबाल्यौ धाताः विश्वसुजः प्रथमा सत्रमाधुरा गोपाः निर्ब्रह्मनामोर्यत्रेण आवेदगन्मनुजेतम् बृहन्तम् सर्वानुभमात्मानगुम् सम्पराये कर्मणावर्धने लोकनीया तस्यैवात्मा बलमित्तम् व्यजित्वा अकर्मणा लिप्यते पापकेण पञ्चपञ्चाशरः सपदः संवत्सराः पञ्चपञ्चाशरः पञ्चदशाः पञ्चपञ्चाशरः सप्तदशाः पञ्चपञ्चाशर एकविशंशाः समवत्सरम् एतेन विश्वजिम् विश्व तस्मादिष्वः विश्वमे नानप्रजागरे ब्रह्मणः सायुज्यकम् स लोकता इयन्ते एतामेव देवतानागम् सायुध्यम् साष्टिताकम् समानलोकता इयन्तेयन्ते एतैनप्राहुः एभ्यष्टैनप्राहुः ओ टकः